नारदपुराणम् उत्तरार्थम् अध्यायम् सेवेण्टि फैव् अथ लक्ष्मणाचलमाहात्म्यं मोहिन्युवाच श्रुतं गोकर्णमाहात्म्यं वसो पापविनाशनं लक्ष्मणस्याभिमाहात्म्यं वक्तुमर्हसि साम्प्रदं वसुरुवाच शृणु देवि प्रवक्ष्यामि माहात्म्यं लक्ष्मणस्य च यं धृष्ट्वा मनुजो देवमुच्यते दे सर्वपादकैः चतुर्व्यूहावतारे यो देवसङ्कर्षणस्वयं सर्वभूमण्डलम् ह्येद सहस्रवदनस्वराडस्मिञ्चिरसिन्यस्तं न वै सिद्धार्थकोपमं देवो नारायणसाक्षात् रामो ब्रह्मादिवेदितः प्रद्युम्नो भरदो भद्रे शत्रुघ्नो ह्यनिरुद्धकः लक्ष्मणस्तु महाभागे स्वयम् सङ्कर्षण शिवः ब्रह्माद्यै प्रार्थित पूर्वम् साक्षाद्देवो रमापदिः रामादिनामभिर्जज्ञे च दुर्धा दिग्रन्थनिनृपाद तद् कालान्तरे देवि विश्वमित्रो मुनीश्वरः यज्ञरक्षार्थमागत्य प्रार्थयद्रामलक्ष्मणौ ततो राजा दशरथप्राणेभ्योऽभिप्रियौ सुधौ मुने शापभयाद्भीदो ददौ तौ रामलक्ष्मणौ गत्वा यज्ञं मुनीन्द्रस्य गाधिपस्य ररक्षतु सथाटकम् सुबाहुं तु हत्वा प्रक्षिप्य दूरधः मरिजमानवस्त्रेण विश्वामित्रमदोषयद यदप्रीदन्मुनिश्रेष्ठादस्त्र ग्राममवाप्य च उवाससखियत्कालं सानुजस्तेन सत्कृतः वैदेहनगरं नीत्वा विश्वामित्रेण तत्परं ततस्तु राजा जनगोविश्वामित्रं सुसत्कृतम् पप्र बालकाव्येदौ कस्य क्षत्रकुले सिदुः ततस्तस्मै मुनिवरो राज्ञो दशरथस्य तौ पुत्रौ निवेदयाम सभ्रातरौ रामलक्ष्मणौ ततो विदेह सुप्रीदो दृष्ट्वा च लक्ष्मणं सीतोर्मिलाख्य वो पुत्रोश्चेदसा त्रिकालज्ञस्तु समुनिर्ज्ञात्वा तस्य मनोगधम् मोद मानोधजनकं प्राकदर्शय तद्धनुः सीता स्वयं वरे न्यस्तं न्यासभूदम् महेशिधुः राजा श्रुत्वा तु तद्वाक्यं विश्वामित्रस्य सत्वरं भृत्य त्रिशत्यानायास्मै दर्शयामास सादरं रामश्चण्डीश चापं तद्वा मद्दोष्णोद्धरान् क्षणाद सजं विकृष्य सहस बभं जेक्षु मिवे भराड ततोदिमिधिलकृदस्वे कन्ये रामलक्ष्मणौ समभ्यच्यापयामास्यान्ते विधिपूर्वकम् ज्ञात्वा मुनिवराधन्यौ राज्ञौ दशरथस्यदौ ताभ्यां सह समाहूयभ्राधृकन्ये अदापयद ततसकृतधारैस्तु च दुर्भिस्तनयैः सह समर्चितो विदेहेनायोध्यं मुन्याज्ञयाययौ मार्गे भृगुपदे दर्पं शमयित्वा स राघवः ्रादृ युधश्रीमान् मुमुदे बहुवत्सरान् पिण्डितैस्तु वसिष्ठान्त्यैर्बोधितो सौ निजं महः ब्रह्माज्ञम्बुबुधे रामो मानुषत्वम् विडम्बयन्ततो दशरथो राजाज्ञातज्ञेयं निजं सुदम् रामं समुद्यतो युष्टो यौवराज्येऽभिषेचितुं यज्ञात्वा कैकेयी देवी राज्ञप्रेष्ठ कनीयसी सन्निवार्य हठात्तस्य पुत्रस्य तदरोच दत्तदो रामो मुदे तस्य पित्राननुमदो ययो सभार्य स सौमित्रिश्चित्रगूढं गिरिं शुभे कियत्कालमुपासौ तत्रैव मुनिवेशधृत मादामः गृहत्तच्च श्रुत्वा यथ पितुर्वधं सविज्ञाय मृदं तादं हारामेदि विराविणम् दिकृत्य कैकयीम् यादौ रामम् स विनिवर्तितुम् तदस्वपादुके दत्वा भरतम् विनिवर्त्यज रामोऽत्रेश्चाप्यगस्त्यस्य सुदीक्ष्णस्याश्रमेष्वगाद तेषु द्वादशवर्षाणि गमयित्वा रहुद्वहः भार्यानुजान्वित श्री मांस्ततः पञ्चवडीमगाद तत्राव सज्जनस्थानेत्री शिरकरदूषणान् शूर्पणख्या विकृतया प्रेरितान् सव्यनाशयद ततो रक्षसहस्रैश्च चतुर्दशभिरागदान् विचित्रावाजैर्नाराचैर्यमक्षयमनीनयद यच्छ्रुत्वा रक्षसां राजा मारीचं काञ्चनं मृगं दर्शयित्वापवाह्यै तौ सीतां कृत्वा जडायुषम् <mí> रुन्धानम् मार्गमाहत्य लङ्कायां समुपानयद आगत्य तौ हृदाम् सीतां मार्गमानौ समन्ततः दृष्ट्वा जडायुषम् शान्तम् दग्वा हत्वा कबन्धकम् सबहिमनु कम्प्याध ऋष्यमुखमुपागतौ तदस्तु हनुमद्वाक्य स्वसख्यो प्रवगेषिदु विद्विषं वालिनं हत्वा सुग्रीवमकरो नृभं तदाज्ञास्तु ते के शा सर्वतः समुपागदाः हनुमत्प्रमुखासीदां मार्गन्धो दक्षिणो दधिं प्राप्य सम्पादि वचना लङ्कायां निश्चयं गदाः तदस्तु हनुमानेक प्राप्य लङ्कां पुरीं कपिः समुद्रस्य परे पारे पश्यद्रामप्रियां सदीम् दत्वा रामाङ्गुलिरत्नम् विश्वासमुपपाद्यतां तयो कुशलमाश्राव्यलब्ध्वा चूडामणिं ततः भङ्वा चाशोकवनिकां हत्वा ससैन्यकं ससैन्यकम् इन्द्रजिद्बन्धनात्प्राप्य सम्भाष्यापिजरावणम् दग्ध्वा लङ्काम् पुरीम् कृष्णाम् पुनर्दृष्ट्वा दुमैथिलीम् लब्धाज्ञोर्नव मोब्लङ्घ्य रामायैनां न्यवेदयद श्रुत्वा रामोऽपितां सीतां राक्षसस्य निवासगां सार्धं स सा कपि सैन्येन सम्प्राप्तो मकरालयं सागरानुमतेन सौ सेतुं बद्ध्वा महोदधौ अद्रिकूडैपरं धीरं प्राप्य सेनां न्यवेशयद तथोक्तौ रावणो भ्राधा बोधितोऽपि कनीयसा प्रदानं तत्र मैथिल्यास्तद्भर्त्रे नत्वरो त्वरोचयद पदापदस्तदस्तेन रावणो न विभीषणः सम्प्राप्तशरणं रामं रामो लङ्कामुपारुणद ततस्तु मन्त्रिणो मात्यापुत्रा भृत्या प्रचोदिताः युद्धा यदेक्षयं नीदास्ताभ्यां सङ्घ्ये लक्ष्मणशक्रजेतारं जघ्निवान्निषिधैशरैः रामोऽपि कुम्भश्रवणं रावणं चाप्यजीतनद विभीषणेन तत्कृत्यं कारयित्वा निजां प्रियां भग्नौ संशोध्य दत्वास्मै रामो रक्षो गणेशदां लङ्गामायुष्टकल्पान्तं व्ययौ चीर्णव्रतपुरीं पुष्पकेण विमानेन स सुग्रीवविभीषणः नन्दिग्रामस्थवरदं नीत्वा योध्यां समाविशद माधृप्रणम्यताः सर्वा भ्राधरस्ते पुरोदशासि प्रेणानुविज्ञाभ्य रामं राज्येभ्य शेचयन्ततो रामो विभगवान् प्रजा लोकापपादसन्त्रस्ता सीतां तत्याजधर्मविद साधु सम्प्राप्य वाल्मीकेराश्रमं न्यवसत्सुखं पुत्रौ च सुषुवेतत्र नाम्ना ख्यातौ कुशीलवौ वल्मीकिस्तु तयो कृत्वा यदा समुदिदा क्रियाः रामायणं विर श्यैता वध्यापयदुदारधीः तौ गायमानौ सत्रेषु मुनीनां ख्यातिमागतौ यज्ञरामस्य सम्प्राप्तौ वाजिमेधे प्रवर्तिदे तत्र ताभ्यां तु तद्गीतं स्वचरित्रं प्रसिद्धधीः मुनिमाकारयामास ससीदम् यत्र संसदि साधुरामा यतौ पुत्रौ निवेद्य जगदीजनिः जगत्याविवरं भूयो विवेशासीत्तदद्भुतं ततः परं ब्रह्मचर्यं यत्नमेव त्रयो दश सहस्राब्दान् प्रकोर्वार्णस्तस्थौ भुविरधूत्तमः तदस्तु काले दुर्वासा सम्प्राप्तो राघवं प्रति ब्रह्मणा प्रेषिदो भद्रे वैकुण्ठगमनायजास एकान्धगतो रामं प्राह कोऽपी खन आगदो आगतो वद्भ्रतां व्याधु रामस्तत्प्रति स लक्ष्मणं समाहूय प्रोवाचरकुनन्दन द्वारितिष्ठात्र निर्विष्ठो वव्यथा मे प्रयास्यति स तथेति प्रतिज्ञाय रामस्य ज्ञां समाचरन् प्रवेशनं न कस्यापि प्रदतौ रामसन्निधौ एव मे रामं कालसंविधमास्थितं ज्ञात्वा धद्वारि दुर्वासा लक्ष्मणं समुपागमद मागतम् दुःसम्प्रेक्ष्य सौमित्रिप्रणिभत्यज मुहूर्तम् पालयत्याह मन्त्रव्यग्रोऽस्थिराघवः दुर्वासा तद्वज श्रुत्वा कालस्य अर्थविधायकः क्रुद्धप्रोवाच का सौमित्रिम् देहिम्यन्थप्रवेशनम् नो वचो दुर्वासः श्रुत्वा लक्ष्मणो जातसम्भ्रमः मुनेर्भिदो विवेशान्तर्विज्ञापयितुमग्रजान् दृष्ट्वा तु लक्ष्मणं काल उद्धाय कृतमन्त्रकः प्रतिज्ञां पालयत्युक्त्वा ययौ रामविसर्जितः ततो निष्कम्य भगवान् रामो धर्मभृदाम्बरः प्रतोष्यतं मुनिं प्रीदो दुर्वास समभो जयद भोजयित्वा प्रणम्य इनं वितृज्य प्राहलक्ष्मणं प्रातर्लक्ष्मण सम्प्राप्तं सङ्गणं धर्मकारणाद यत्त्वमेवभ्यदां प्राप्तो दैवं कि बलवत्तरं मया त्यक्तस्ततो वीरयथेच्छं गच्छ सम्प्रतं ततः प्रणम्य तं रामं सत्यधर्मे व्यवस्थितं दक्षिणां दिश्यमाश्रित्य तपश्चक्रेण गोपरि तदो रामोऽपि भगवान् ब्रह्मप्रार्थनया पुनः स्वधा मा विशदव्यग्रससा केदसकोशलः गोपग्रतारे सरय्वाम् ये रामम् सञ्चित्य सम्प्लुताः ते रामधाम विविशुर्दिव्याङ्ग् वा योगिदुर्लभं लक्ष्मणस्तु कियत्कलं तपो योगश्चलान्युतकरमानुगमनेनैव स्वधामाविशदव्ययं सान्निध्यं पर्वतं तस्मिन् दत्त्वा सौमित्रिरन्वखं चक्रे निजाधिकारं स ततस्तत्क्षेत्रमुत्तमं ये पश्यन्ति नराभक्त्या लक्ष्मणं लक्ष्मणाचरे ते कृतार्था न हरिमन्दिरम् तत्र दानं रशं सन्धिस्वर्ण गोभूमिवाजिनां दत्तं तत्राक्षयं सर्वं हृतं जप्तं कृतं तथा बहुना किमि भोक्ते न दर्शनं तस्य दुर्लभम् अगस्त्याज्ञान्तरा देवी दृष्टे मुक्तिर्न संशयः यदग्रामचरित्रम् लक्ष्मणाख्यानसंयुतं श्रावयेद्योभि श्रृणुया स्यादां तौ रामवल्लभौ इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे रामलक्ष्मणचरित्रसहितलक्ष्मणाचलमाहात्म्यं नाम पञ्चसप्ततितमोऽध्यायः इति लक्ष्मणाचलमाहात्म्यम् ओम्